अथ द्विषष्टितमः सर्गः एवम् तु राजा राम स शोकया श्रावितः परुषम् वाक्यम् चिन्तयामास दुःखितः चिन्तयित्वा स च नृपो मोहव्याकुलितेन्द्रियः अथ दीर्घेण कालेन सञ्ज्ञामापपरन्तपः स सञ्ज्ञामुपलभ्यैव दीर्घमुष्णम् च निःश्वसन् कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् तस्य चिन्तयमानस्य प्रत्यभात्कर्म दुष्कृतम् यदनेन कृतम् पूर्वमज्ञानाच्छब्दवेधिना अमनास्तेन ना शोकेन रामशोकेन च प्रभुः द्वाभ्यामपि महाराजः शोकाभ्यामभिगप्यते दह्यमानस्तु शोकाभ्याम् कौसल्यामाह वेपमानोऽजलिम् कृत्वा प्रसादार्थमवाङ्मुखः प्रसादये त्वाम् कौसल्ये रचितोऽयम् मयाञ्जलिः वत्सला चानुशंसा च त्वम् हि नित्यम् परेष्वपि भर्ता तु खलु नारीणाम् गुणवान् निर्गुणोऽपि वा धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् सा त्वम् धर्मपरा नार्हसे विप्रियम् वक्तुम् दुःखितापि सुदुःखितम् तद्वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् कौसल्याव्यसृजद्बाष्पम् प्रणालीव नवोदकम् सा मूर्ध्नि बध्वा रुदती वचः प्रसीदशिरसा याचे याचितास्मि हतादेव क्षन्तव्याहम् न हि त्वया नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता उभयोर्लोकयोर्लोके पत्या या सम्प्रसाद्यते जानामि धर्मम् धर्मज्ञत्वाम् जाने सत्यवादिनम् पुत्रशोकार्तया तत्तु मया किमपि भाषितम् शोका नाशयते धैर्यम् शोको नाशयते श्रुतम् शोको नाशयते सर्वम् नास्ति शोकसमो रिपुः शक्यमापतितः सोढुम् प्रहारो रिपुः स्तः सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते वनवासाय रामस्य पञ्चरात्रोऽत्र गण्यते यः शोकःत हर्षाय पञ्चवर्षोपमो मम तम् हि चिन्तयमानायः नदीनामि वेगेन समुद्रसलिलं महत कथय कौसल्या शुभम वच मंदरश्भूसू रजनी चाभ्यवर्त अथ प्रह्लाक्यदसल्य नृप शोक निद्राया वशमे इवान माणे वाक अयोध्या सर्ग